ओ ख्यायामोद्धबला वकुण्डपती तेजोमयीं ने कापाङ्गो भगवतीं मन्दस्मितश्रीं श्री पादत्यामृगभण्डश्रीभवती नन्दाचि ॐ नमः ॐ अमृतेश्वर्यैष्णवः ॐ अमृतेश्वर्यैष्णवः ॐ गणानाहां द्वागणपतिकं हवामहे कुम्भु जेष्टराज दनम् ॐ श्रीमहाकुले प्रणो देवी सरस्वती वार्तेभिर्वामी नमः so uh, let us start with prishoktam from the very beginning till whatever we learned last time we will stand ones together which is the sixth paragraph which says padhyam bhumya tishtrotra <laughs> ate tatha lokagumagal pain then next paragraph we started learning it but we didn't finish it so that part we will chant twice after finishing this first part okay so let us go till this end of sixth um, paragraph which is तथा लोकागुम् अगल्पेन् टुएट् वन्स् टुगेदर् रेडि टु त्री ॐ ेषजम् द्विपदे शं ॐान्ति शान्तिः ॐ सहस्रशी पुरुषः सहस्रपात् सर्वम्पत्येषाति पादो पादो त्य महिमाया भूतानि तृषः पादोत् पुनः यतराजो अधिपुरुषः अत्युच्यतोषः वसन्त वसन्तो अस्याीष्मरेष्मविद्भशरद्धविः सापरिधयः देवायज्ञम् वर्गे प्रौपशन् पुरुषम् चातमः तेन देवाय देवायन्त बहुतः तम् पृषदाज्यम् पशुगन्तायव्याने ज्ञान्या यज्ञा विरे माय मा दश्वा मा दृष्वा अजायन्त ये येषु ध्यातः अजा वयः कविताभ्यन् का मू ॐुतः पूरो दैत्यः जायत मुक्तायतरिक्षणम् देवी कृष्णोषम Adhyaam Dhu Mere Tati Dostra Vata Adhyaam Dhu Mata Dabha Vata Adhyaam Dha Vata So we studied the next three, till Shakra, Pravidwan, Pradhi, Shascha, Tasraha till that point right? Yeah. yeah. So, uh, till that point let us chant together two times and then we'll learn the other part and chant this whole paragraph, okay? So ready? वेदाहमेधं टिल् शक्रः प्रविद्वान् प्रदिशश्च तस्रः ओके रेडि वन् टु त्रि वेदाहमे सर्वाणि वाणि धाता साधारिश्रन्द्रेदा वेदाहमेतम् पुरुषम् आदि nama namah gamet namah jeevanam tehi tehi ahutam da patam da jagahana sakram pravinara pratishama prishad prathra tamevam nitvam okay so let us uh, learn the next part starting from tamevam तमेवम विदधाम विदधा प्रतिह भवति तमेवम विदधाम विदधा प्रतिह भवति तमेवम विदधाम विदधा भवति दया भगति इसार ओके तमेवम विदवान अमृततः भवति सुविद्वान अमृत बिकम विद्वान अमृत ्यन्ताय नाय विद्दे य विद्यते यज्ञमयजन्द्रःवा तानि धर्माणि प्रथमान्यासन् ते हाखम् महिमानः सजन्ते ये नाना अत्मनि सजन्ते सिन्ति सिन्ति ये नाना कल्पविमानत् कणन्ते सिन्ति सिन्ति यत् प्रपूर्वे साध्या संधि देवाः यत् यत् प्रपूर्वे साध्या संधि देवाः यत्र पूर्व पूर्वे पूर्वेवा ओके नल्टेल् यु वा यु रिपीट् वाैस् बिका लास् डौण्ट् राट् आल्से वाट्स् यत्र पूर्वे साध्या सन्धिदेवान्धि साध्याः सन्ति देवाः ओकेट् प्राक्टीस्मेव मेवं विद्वानृ भवति नामय विद्यते यज्ञेमय देवा तानि कर्माणि प्रथमानि तन्न टुगेदर् वन् टु त्रि त्वमेवं बिन्दृत इह भवति यदि अ okay so let us do one thing let's start with the, the whole paragraph once together okay veda ahamedam til sadhya sandi devamah together once and then we will practice individually ready 1 2 3 वेदाहमेदम् पुष्णम् पुरुषम् महाधर्माणि धातुप्रक्रियायाः विद्यायाः कान्तं कारणं च मोदं च धारयति। श्रक्रं प्रकृतेः कलायाः प्रदीपनं च करोति। तस्मात् विद्यायाः ज्ञानं च प्राप्तं भवति। ओकेपरी okay बि वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः कृत्वाभिवदन् यदास्ते धाता पुरस्ताद्यमुदा जहारक्रः प्रविद्वान् प्रदिशश्चतस्रः तमेवम् विद्वान्मृत इह भवति वित्तमेवम् विद्वानमृत इह भवतिः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्तदेवाः तानि धर्माणि प्रथमान्यासन् तेह नाकम् महिमान सचन्ते यत्र पूर्वेवाेटर वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचिन् विचित्यधीरः नामानि कृत्वाभिवधन् यदास्ते एता पुरस्ताद्यमुदाजहार शक्रः प्रविद्वान् प्रदिशश्चतस्रः समेवं विद्वानमृत इह भवति नान्यः पन्ता अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकं महिमान सचन्ते यत् पूर्वे साध्या सन्ति देवाः ऐ केन् गोदाहमेदं पुरुषं महान्तम् त्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विजिवधीरः नामानि गुरुवाभिवदन्यदासे साधा पुरस्तामुदा जा जहारा नमृत नान्यपन्था अयनाय विद्यते नित्येन मय जन्म प्रसन् प्रथमान्यासन् प्रम प्रथमान्यासन् प्रथमा Is is is is is that right? right? don't don't don't have have to to go the the N. N It same level, becomes high. high. high. say say some So So like in ैक्ताक्र है सो इ adihandis at, at the same level so tan yadharma ni prathama nyasan is asan mm -hmm. at the same level okay mm -hmm. tan yadharma ni prathama nyasan mm -hmm. correct tanagam mahimana mahimana satande yatra purve sadhya sandhi devaha good what's to go next I can go next, okay, go next, Okay, ahead. medam purusham mahatam ऐ केन् गो vijitya हरिहमेत्य दयास्ते स्ते कृत्वाजहारा शक्रप्रविद्वान् प्रदिशसहस्रः मेवं विद्या न मृद इह भवति नान्यं पन्द अयनाय विद्यते यज्ञेन यज्ञेन यज्ञमयजं देवाः तानि धर्माणि प्रधान्यासन् देहनागं महिमा धनं यत् यत्र पूर्वे स्वाधा सन्ति यत्र पूर्वे Okay Who wants to go next I can go Okay Vedahame tam purusham mahantam aditya varnam tapas tamas tu pare सर्वाणि रूपाणि विचिन्त्य धीरः नामानि कृत्वा विवदन् यदा ते ए पुरस्तात्य मुदा जहार शक्रप्रवान् प्रविषस्तक्रः समेवम् विद्वान् अमृत इह भवति ्यपन्ता अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः ताणि धर्माणि प्रथमान्या सन् सेहनाकं महिमान स सचन्ते यत्र पूर्वे दाद्या देवाः very good who wants to go next can i pray hadi yes please go ahead you can you hear me yeah hadi yes i can hear you go ahead vedahame dam pudusam mahandam aditya varnam tamasas tu pare सर्वाणि रूपाणि विजित्य धीरः नामानि कृत्वाभिवदन्त्य दास्ते यदास्ते धाता पुरस्ताद्विमुदा जहार चक्रप्रद्वान् प्रदिशस्तद्रः समेमं विद्वान् अमृत इह भवति नान्यः वन्दा अयनाय विद्यरे yisni sityamaya jantadevaham tani dharmani pradhamanyasantehan tehanadam mahimanasvajante yatpa santi sādhyā kandidevaham Very good. Very good. So that nānyas pandhāya yay vidyadeh not vidyadeh A, there's no double A, okay? Only one A. Mm. we okay, cannot like etas te etasya astu a in this case only anya spanda yanaya vidyate good very good who wants to go next to man then i can try i'll go hari okay let another new set first so you go first then mahesh can go after that please mm. वेदा अमेतं पुरुषं महान्तम् आदित्यवर्णं तमस्तस्तु फरे पर्वाणि पारे सर्वाणि रूपाणि विचिन्त्य तिराः नामानि कृत्वा यदा आस्ते हे ताथा पुरुषो तच्छाहरः प्रदिद्वान् प्रदिश्छता त्वमेवं विद्वान् स्वमेवं द्विद्वा नामृता इह पति न यः इद्यते अयनाय विद्यते यज्ञेन यज्ञं मां यजन्त ते वादेवः तानि नि धर्माणि प्रथमा प्रथमन्यासन् तानि धर्माणि प्रथमान्यासन् प्रथमान्यासन् तानि धर्माणि प्रथमान्यासन् देहा नेहनाकम् तेहनाकं पूर्वे सध्या सन्ति दे वह एकवचनं बहुवचन लाङ्ग् आ और् शार्ट् आध्याः लाङ्ग् आ ओके सो यत्र पूर्वे साध्याः सन्ति देवाः वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन् यदास्ते धासा पुरस्ताद्यमुदा जहार शक्रविद्वान्प्रदिशश्चतस्रः तमेवम् विद्वानमृतः इह भवति नान्यः पन्था नयनाय विद्यते यज्ञेन यक् न्त देवाः तानि धर्माणि प्रथमान्यासन् the हाकं महिमानः सचन्ते the पूर्वे साध्या uh, coming at the same level, right? So don't go high, that's all, देम् yeah. Okay, okay. okay. Okay, some places places is going up, Pashu, gustaga, sakre, vayana, is up, okay. Other places don't go up, that's all. Tani, dharma, ni, prada, asana should uh, should stop the the asana. Asana will become high, right. Okay. Okay. Uh, I I think I also make the mistake sometimes, so <laughs> I'm just telling you that you that do it पशु गुस्ताक्रे वायव्याप्स्टेक्स्ट् ऐ डु Okay. तो एवरीबडी इज डन ओके लेट अस लर्न द नेक्स्ट पैराग्राफ अभ्यस्तं भूदः पृथिव्यैरसा आच्छ अदप्यं दम्यं भूदः पृथिव्यैरसा आच्छ अद्य ै आभ्यः सम्भूतः पृथिव्यै रसा च भ्यः सम्भोधः पृथिव्यैरसा आच्यम्भूत अद्भुतम्भूतम् टर् तत् वडे अभ्यः सम्बोधः पृथिव्ये रसाश्च रसाच् च वाटर् विश्वकर्मणः समवर्तताधि धि विश्वकर्म तस्य त्वष्टा विदधद्रूपमेति तस्य स्पष्टमेति तस्य त्वष्टमेति भक्तिपदे षस्य <todic> विश्वमाजानमग्रे <todic> लर्न् दिस् वन् टु त्रीर्सस् ओके ऐ विल् सेट् वन्स् आल् टुगेदर् अण्ड् यु रि अभ्यम्भूधः पृथिव्यैरसा आच विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे अध्यस्तम् विश्व कर्मणी सत्पुरुष अदभ्यै कर्मण समी ya ya swarupa meeti tat sat purusha yadyo bhavanya namagre anybody has uh, any problems with this okay for everybody Let us practice practice, this twice together, then we can individually practice, okay? okay? Ready? 1, 2, 3 karma देट इस् प्रक्टिस्िस्वास् टुगेदर् इण्डिविजुलि प्रेक्टिस्ट्य Okay, one more time, together, one, two, three. तस्य वैदीपमेश्व अभ्यः सम्भूतः पृथिव्यैरसा आच विश्वकर्मण समवर्तताधि तस्य त्वष्टा विदद्रूपमेति ृथ्वैरसा आश्च विश्वब समवर्ततधि तस्य तुष्टा विदधृपमेति Vida rupam. no rupam. okay. okay. Who wants to to go go next? next, You don't have to wait for me, you can just say I'll go next, okay? Anybody wants to go next oh. ै रसा आच Because because the comes, it will become F sound followed by a Pakara, right? yeah, okay, okay. Vishwa ृथिव्यै रसामवर्ततादि तस्य स्पष्टा purushasya vishwa विश्वमाजा रसा विश्वकर्मण समवर्तदाति तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्यैरसा आच विश्वकर्मण समवर्तताधि तस्य त्वष्टा विदधद्रूपमेति तत् पुरुषस्य विश्वमाजानमग्रेरिगुड् इस्ट् ओके अद्यः सन्तुकः पृथि पृथिव्यच विश्वकार्मा नः कर्मदाति तस्य पुरुषस्य विश्वमाच विश्व अण्डर्गो चेञ्जेस् सो इण्ट् बि जस् आल्स् अह okay this will combine with the next one and the pronunciation changes a little bit so it becomes adhyat sambhuta prithivey rasa cha adhyaha sambhuta prithivey rasa cha viswa karmaṇa samavarta okay so there will be light side difference okay so and the thing is this chanting also will be little bit high and low depending on the, the swara is up or down so they'll have marked markings on it saying if it's high they'll have a uh, one uh, a grave accent on top is is coming low it will be a underscore on the bottom okay so that is what it says adhyasam bhudha prithivera sa acha sa aayu so sa acha uh, it will be uh, the double uh, markings are there right will so become twice and uh, that is externally tat purushas that comes low tat purushas Chana magre, ge, gre e is is is high it will will will so so so so that that that one thing thing in Vedic chanting be be be be be some swaras there there there and and low It's called udata, uh, udata okay okay so you have to be careful about that. And also sandhi always like balaha balakaha ramaha krishnah changes because of the next letter because whatever is before mm. and after will combine um mm, anish okay thank you who wants to go next anil go okay adh test sam bhudha pruddhiyayit okay. satya sakya nisch karma nasamavattadaadhi satya tvasa vidarth अभ्यस्तभूतः पृथिव्यै प्रसा च विश्वकर्मणः समवर्तताधि ष्टा विदहमेति तत् पुरुषस्य विश्वमाजानमग्रेरि गुड् वेरिबुडि ओके सो लेट् लेर्न् दि नेक्स्ट् हाफ़् आफ़् द प्याराग्राफ़् वेदाहमेधम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् आदित्यवर्णं नमः आदित्यवर्णं नमतः तमेवं विद्वान् मृद इह भवति नान्यः पन्था विद्यते जनाय ओके प्रोम् एनिवेर् सोफल् प्रजापतिश्चरधिगर्भे अन्तः गर्भे अन्तः प्रजा तस्य अजायमानो बहुधा विजायते अजायुधायते इ अजायमानो नोट् आजायमानो ओके ऐ होर्ट् आजायमानो प्रश्नपडि अजायमानो बहुधा विजायते बहुधा जायते ajaya mayam yo devah vijaye te tam satya vijayate is okay for everybody yeah okay so i'll repeat the from the very beginning to the end once the whole thing you guys repeat twice vedahame tam purusham mahantam -hmm. आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यदेयनाय प्रजापतिश्चरदि गर्भे अन्तः अजायमानो बहुधा विजायते हेम पुरुषे चरति गन्दे वचः रजिकाः अहं यं ते योषधा यस्य पितो हमे तं वेदं पुरुषं नमो नमः नारी yeah, agaya ma yo bega kham paraya yetiyo yate hasya tiram okay so let us uh, do this twice together then we can individually practice okay ready 1 2 3 ve ta tamo namo maho namo आदित्यवं विद्वानुपदं भव्यः पन्ता विद्यदेयनाय प्रजा ajaya bodha vidayate sura oke one more time 1 2 3 vedah me am purva samahanta antam aditi varanam tamaskaradaram samevam am vedam vruta นอนเดี๋ยวบัญชาวิทยเตยนายประจาปริสทระติกรเตเคกังธาอจายโมพุทธาธิายเตติ So who wants to go on their own वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमस परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते विद्यते अयनाय विद्यते अयनायन्थाय विद्यते पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः वेदाहमेदम् पुरुषम् महान्तम् आदित्यवर्णम् तमस परस्ताद् तमेवं विद्या न मृग इह भवति अंतः अंतः बहुदा नाण्यस्पन्दुते अनाय Not the M, okay? Oh. Just uh, look at that, that's all, okay? Nanyam, okay. Not okay. Nanyam, Nanyat Pantha. Okay. I think it is in the... Okay. See, I am reading it. It's not right. the M, it's not the M. There are two circles there, so I thought it was, okay. No, no, it's nanyat the Aha. Uh -huh. The visarga is Aha, uh -huh. okay? Okay. Okay. Now, uh, Sushila ji. महांतं वेदाहमेहमेत्यमेव न मृत इह भवति तमेवम् विद्वान् अमृत इह भवति नान्यपञ्च विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजा विजायते वेदाहमेकम् पुरुषम् महान्तम् आदित्यवर्णम् तमसप्तरस्तात् तमेवम् विद्वान् अमृत इह भवति नान्यः पन्ता विद्यते बहुदा श्च प्रतिगर्भे अन्तः अजायुधा विजायते हमेतं पुरुषं महान्दम् आदित्यवर्णं तमदमसपदेवं विद्वान् अमृत इह भवति नान्यः वन्धा विद्यते जनाय प्रजापदिश्चरदि गर्भे अन्धः एताहमेतां पुरुषं महान्तम् आदित्यवर्णं तमसा परस्तात् अमेवं नामृता इह भवति न यः अन्तय प्रजापतिश्चरति कवे अन्तः वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः तमेवम् विद्वानमृत इह भवति ण्यः पन्ता विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते yeah thinking everybody done yeah thanks so. okay so what you so we'll, uh, do this whole pack of ones and you will stop for the day okay you'll we'll just do your sambu that till ajaya mono buddha vijaya they will do it together ones and then we'll stop okay. ready okay 1 2 3 विश्वकर्म धस्य त्वषा तत्पुरुषस्य आह नमः स्वस्तं महादेवाय आदित्याय नमः सतम सत्सृजा देत्य समीं वन्ता मनमरते तुं के पार्वती ज्ञान्य वन्ता तं का दिव्यय नञ्ञ मन्ञे क्या पर जन करन से नभ से अंधा यद्यपि च नमो सहुता बिजाजते जायते ओके सो नेक्स्ट वीक वी विल डू इंडिविजुअल प्रैक्टिस ऑफ दिस पैराग्राफ एंड देन प्रोबब्ली विल फिनिश पुट इट बुक द नेक्स्ट क्लास आई थिंक ओके Okay. Yes, any questions? No. no. Okay. Let us uh, do three logos and stop for the day. Om. Oh. Mm Om. -hmm. Om. Mm Om. -hmm. Om. Om. Om. Om. Om. Om. Om. Om. Om. Om. Om. सुपनिदां जतो माप्नोतु सुखं दिगं वदन्ति स्तोत्रं कृतते नामि हरि धी धी ओम्